स्तोधम् वै ब्रमज ब्रह्मवर्तधमेवावरुन्ध राज्ञष्टोमः भवते ब्रह्मवर्तधम् वा आज्ञष्टोमः ब्रह्मवर्तसमेवावरुन्ध रसन्तरगुंसा भवते ब्रह्मवर्तसम् वै रसन्तरम् ब्रह्मवर्तसमेवावरुन्धे परिश्रजी होता एतद्मये ब्रह्मवक्षदस्य रूपम् रूपेणैव ब्रह्मवक्षदमवरुन्धे बृहस्पतिरकामेतदेवानाम् पुरोषाम् गच्छेमिति स एतम् बृहस्पतिसमवश्यते अमाहरत् येन यजदा ततोऽपितदेवानाम् पुरोषामगच्छत् यः पुरोषाकामः स्यात् स बृहस्पतिसवेन यजेदा पुरोषामेव गच्छति तस्य प्रादस्त्व प्राद सन्न्येषु नाराशपुंसेषु एकादशदक्षिणानीयन्ते एकादशमार्थ्यन्ति नेधवने सन्न्येषु नाराशपुंसेषु एकादश त्रीथवने सन्ेषु नाराशपुंसेषु त्रयस्त्रिकिंशत्सम्पद्यन्ते त्रयस्त्रिकंशद्वये देवताः देवता एवावरुन्धे देवता अश्वस्तिरुस्त्रिपुंसः प्राजापत्योपाश्वः प्रजापतिस्तुस्त्रिपुंसो देवतानाम् यावदेेवदेवताः ता एवावरुन्धे कृष्णाजिनेऽभिषिञ्चते ब्रह्मणो वा एतद्रूपम् यत्कृष्णाजिनम् ब्रह्मवर्तते नैवेनकम् समर्थयते आद्ये नाभिषिञ्चते तेजो वा आज्यम् तेजयेवास्मिन् तथा ते यदाग्नेजो भवति पुष्टिर्वैपूषा पुष्टिर्वैष्यस्य पुष्टिमेवावरुन्ध्य प्रथवायथा मित्रः अथयत्त्वाष्टः कष्टाधिरूपाणि विकरोति ननुवरुणत्वायवारुणः असूयमेव कश्चसाः स हिवारुणः अथयद्वैयेष्वदेवः वैश्वदेवो हि वैश्यः अथयम् मारुतः मारुतो हि वैश्यः सप्तेतानि भवेदृंसि भवन्ति सप्तगणामे मरुतः पृष्टः पष्टौ हेमालुत्यालभ्यते हिड्वे मरुतः हे विषयेवे तन्मध्यतोऽभिडच्यते तार्वा एष विषःप्रियः विषोहिमध्यतोऽभिष्यते सरिप्रजनयिता रद्धाभिडिञ्चते ओर्ग्वा अन्नाद्यन्दे ओर्देवेनमन्नाग्ने न समर्थयते यदाग्नेयो भवति आज्ञेयो वे ब्राह्मणः अथयत्सौम्यः सौम्यो हि ब्राह्मणः प्रथमायेव सात्रः अजयद्वा बृहस्पत्यः एतद्वै ब्राह्मणस्य बाष्पदीयम् अथयग्ने सौमीयः आग्नेयो वे ब्राह्मणः यदा सङ्गच्छेते अथवेर्यावत्तरो भवति एतद्ध्यप्रत्यक्षम् ब्राह्मणस्य वाक्पदीयम् एव वारुणः अथोय एव निश्चे सिवारुणः अथयद्या वापृथ्यः इन्द्रावृत्रायभ्रमुदयच्छा वा पृथगे नान्वपण्येताम् अमेते नैव भागधे ये नान्व मन्येताम् अष्टावेतानि हवेगुंषि भवन्ति अष्टाक्षरागायत्रे गायत्रे ब्रह्मवर्कथम् गायत्र्यैव ब्रह्मवर्कथमवरुन्धे हिरण्येन हृदमत्पदाजे तेजस एव ऋते कृष्णाजिनेऽभिषिञ्चते ब्रह्मणोमारेण दृक्सामयालोकम् यत्कृष्णाजिनम् ब्रह्मणमेवेन मृत्सामयो लब्ध्यभिषिञ्चते धृणाभिषिञ्चते तथा वेर्यावत्तरा भवति न वै सोमेण सोमस्य समास्ते हतोख्येषः अभिषुताख्येशः नै हरः सूयके सोमेकम् सूतवशामानफले सोमो वेदेतोधाः वेतगेव तत्रधाने सौम्यच्चाभिषिञ्चते वेतोथाख्येशः वेदः सोमः वेतकैवास्मिन् प्रधाने यत्किञ्च राजशून्य सोमम् तत्सर्वम् भवति अशाश यत्सपदना सुप्यम् सुपर्षामस्वाम् प्रजनस्य गोपाम् दरेजागम् सुक्ष्गम् दुश्रवसम् येम् तन्त्वामनुपदेव सोम योगे सोमेन सूयते सदेव समः यः पशुना सूयते सदेव समः वैत्या सूयते समुनश्य समः एतम् वे दुषये देवाः ततोऽपि सोऽप्यनाम् पशो नाम सूयत यावदे क्षेतेश्च प्रजावाचम् वदन्ति ता साकम् सर्वा साकम् सूयते योजेन वेद नाराशज्ञस्य चाभिषुञ्चके मनुष्या वेन राशपुंसः निर्भत्यमावेतत् अथाभिषुञ्चके यत्किञ्चराशसोऽयमोत्तरवेदीकम् तत्सर्वम् भवते येन चाशनम् ददुः अश्वानाकम् सहस्कृतिः विमरज्ञेमस्वः बृहत्मघोणा एमाने कन्वरथम्बरम् भवति यौवैवाजमेयःसवः यौराजसूयः स्ववरुणसवः प्रजापतिस्वाराहाम्बरमेष्ठी स्वाराहाद्योव ौरिव भवन्तस्वाराम् प्रतिथुराभिजुञ्चते तद्धिस्वाराज्यम् अनुद्धते दक्षिणता गृहसतो यम् वान्तरम् असो बृहदे अनयोरेवैनमनन्तरिभिनमभियुञ्जते वृषस्तोमो वा एषः एनगोसः क्षत्रिपुंशः सर्वः एन्जातः सहसा वृद्धः क्षत्राणाम् क्षत्रभृत्तमो वः महान्मेत्वेतस्तभाः क्षत्रे राष्ट्रेजाजिः प्रजापदेऽस्त्वामयमेष्ठिनस्वाराज्ये नाभिम् ऋषुरग्नौ भ्रानाम् मणेशोर्गेया इन्द्रय्या देवे शुभगा जानहागम् वृत्यदानं व्यानाज्येन्दुभावायतायाम् अश्वस्य क्रन्धे पुरुषस्य मायौ इन्द्रय्या देवे शुभगा जानहागमृत्यदानं या हस्ति याहिरण्ये विशलस्वेषु पुरुषेषुकोषो स्वागमवर्त्यरागम्यदानाण्डे मरणस्य सुष्मे इन्द्रे स्वागमवत्य राज निराजे सम्राटजस्वराजे इन्द्रायत्ता तेजस्वदे तेजस्वन्द्रश्रेणामि इन्द्रायत्तौजस्वदभोजस्वन्द्रश्रेणामि इन्द्रायत्वापयस्पदे पयस्वन्द्रश्रेणानि इन्द्रायत्वायुष्पदायुष्पन्द्रश्रेणानि तेजाभि तत्तय प्रेच्छामि तेजस्वरस्तु मे मुखम् तेजस्वच्छिरास्तु मे तेजस्वान् विश्वप्रत्यङ्गमा वोजाधि तत्तय प्रेक्षामि वोजस्वरस्तु मे मुखम् वोजस्पच्छिरास्तु मे ओजस्मानुविश्वरप्रत्यङ्गजसादम्ब्यवृद्धिमा पयोसे तत्र प्रेक्षामि पयस्पदस्तु मेमुखम् अयष्वच्छिरास्तु मे अयस्वान्विश्वरप्रत्यङ्गयसादम्ब्यवृद्धिमा आयुषे तत्र प्रेक्षामि आयुष्पदस्तु मेमुखम् आयुष्मक्षिरास्तु मे आयुष्मान्विश्वरप्रत्यङ्ग आयुषादम्ब्यवृद्धिमा ेदेवायलुरष विश्वायुरसे सर्वायुरसर्वमायुरसे यतो वाचो मनोचवाः यतः क्षरन्ति सिन्धवः सर्वासा गुङ्ा निवर्तता समुद्रयवादिबम्हनाः सोमयुवास्रदाभ्यः अद्रमविश्वप्रत्यङ्गे सूर्ययवज्योजना विभोः अवाय्याममेरसः तमहमस्माहामुष्यायणाय तेजसे ब्रह्मवध्याय गृह्णामि अपाय ऊर्मोरसः तमहमस्माहामुष्यायनाय ओजसे वीर्याय गृह्णामि अवायमध्यलोरसः तमहमस्माहामुष्यायनाय ष्यै प्रजनानि गृह्णामि अपाय्यो यज्ञयो रसः तमामस्वामुष्यायनाय आविषे दीर्घायित्वारि गृह्णामि अभिक्लेधिवीरयस्व उग्रश्चपत्नः आदिष्ठमित्रवर्धनः तुभ्यम् देवाभिब्रवन् अङ्कोऽ्यङ्कामभिरादिष्ठवृत्तः आदिष्ठन्तम् परिविश्वे अभूषन् श्रीर्मनिष्ठाः महात्मदस्यासुरस्य नाम आविश्वरूप अमृतास्थौ अवत्त्वन्द्रमत्मनुबृहस्पतिः अनुसोमो अन्मग्निराजेव अनुक्त्वा विश्वे देवावन्वो अनुसप्तराजानो यौताभिषिक्ताः अनुक्त्वा मित्रावरुणा विभावदम् अनुभ्रावापृथिवी विश्वशम्भो सोऽहोभिरणत्वावदो चन्द्रमा नक्षत्रेरणत्वावद ी च प्रचेतसा शुक्रो बृहद्रक्षिणात्वा विभक्तो अनुस्मथाग्नेः आयम् प्रजापतिप्रजासृजता आहस्मात्सृष्टा पराजेरायन् सहेतम् प्रजापतिम् प्रजा उपावर्तन्त अन्नमेवेण भवतम् पश्यन्ते प्रजा उपावर्तन्ते एतेन हिरते यौजेन एवम् वेद सर्वाण्यन्नानि भवन्ति सर्वे पुरुषाः सर्वाण्येवान्नान्य सर्वान् पुरुषान् राणसिविरानचेत्याः स्वाराज्यमेवनम् गमयते निरशिरण्यम् ददाति तेजस्तेनावरुन्धे यस्य धर्मम् धीर्यन्तेन यदष्टाः पुष्टिन्तेन यत्कमण्डलम् आयुष्टेन यद्धिरण्यमाबद्धाति ज्योजर्वेहिरण्यम् ज्योतिरेवास्मिन् दधाति असोतेजोहिरण्यम् तेजरेवात्मधत्ते यतो धनम् प्राश्नाति एतदेव सर्वमवरुध्य तस्मिन्ने कथा रोहिण्या कार्यः यत्रा ब्राह्मण एव रोहिणी तस्मादेव असौकस्नैव समानानां करोति उद्यता सौर्येण कार्यः उद्यन्तम् वा सर्वाः प्रजाः प्रतिनन्दन्ति दुदृक्षेण दर्शनीया भवति य एवम् वेदा रम्भवाचिनो वदन्ति यद्दर्भवम् जेदयः पवयति दे। तत्सि देवा वैते दे। तन्ना वैते दे। त्रिभिः पवैले ते इमे लोकाः येभिरेवैनम् लोकैः पवयति अथो अपाम् वा एतत् ते जोवच्चः यद्दर्भाः यद्दर्भवम् जेदैः पवयते अपामेवैनम् ते चामच्च साभियुञ्जले प्रजापजगामेन बहवर्भूयान् श्याविदे स एकम् पञ्चशारदीयमपश्यते अमाहरते तेन यदा तदोत बहवर्भूयानभवदे यः कामयेत बहवर्भूयान्स्यामिनि सपञ्चशारदीयेन यजेत बहोरेव भूयान् भवति मरुत्सोमो वा पञ्चशारदीयो भवति पञ्चवार्दवः संवत्सरः संवत्सरे प्रतिष्ठले अथवा पञ्चाक्षलापङ्क्तिः वान्तो यज्ञः यज्ञमेवावरुन्धे सप्तदशग्रस्तो मानादयन्ते सप्तदशप्रजापतिः प्रजापतेरात्ये अगस्त्यवर्भ्य उक्ष्णः प्रवोक्षते तानिन्द्रा दत्ता तेन कानकस्यश्चैवेन्द्रश्च गया सुबीजे दाशुमयम् यद्गया सुबीजम् भवति शान्ते तस्मादेकलीन्द्रामादृताक्षाणस्तवणीजा भवन्ति त्रयः प्रथमे हन्ना लभ्यन्ते एवम् द्वितीये एवम् तृतीये एवञ्चतु पञ्चोहत्तमे हन्ना लभ्यन्ते अयष्ठस्मानानाम् भवति एतेन यजने यौजेनमेवम् वेद स्वाराज्यम् वा एतयज्ञः एतेन वा य गजा वा स्वाराज्यमगच्छति स्वाराज्यम् गच्छति एतेन यजने युजेनमेवम् वेद मारुतो वा एतेन वै मरुतो देवानाम् भूयक्षस्वमानानाम् भवति यजैतेनैतने यौजेन एवम् वेद पञ्चशादिनी योगा एष्यः आपञ्चमात् पुरुषादन्नमत्ति यजेतेनैजने यौजेनमेवम् वेद सप्तदशग्रस्तो मानादियन्ति सप्तदश प्रजापतिः प्रजापतेरेव नैति अस्याजनाहो तमा मरित्राः अत्यर्थो मासो अग्नयः पावकाः वायपोमात्रावरुणः प्रजा देवालम् मृदम् बृहजक्ष्यस्पन्दमम् अस्मिनाविवदगम् श्रुतम् दीर्त्यज्ञे वृता मृदुनायज्ञवाहसा देवीरूपेतस्पर्थे अन्यान्या वत्समुपधापयत् हरिण्यस्याम् भवति स्वधावान् शुक्रो अन्यस्यान्तर्वापरञ्च रतो भागीतौ शिशु क्रीडन्तौ परिजातोन्योभुवनाभिचष्टे ऋतो पुनः त्रीणिषदान्यज्ञम् त्रिंशच्च देवानवजासपर्यन् औक्षङ्खते रास्त्रम् परिहिरस्मै आदिर्धोदानन्यशादयन्त अग्निनाग्निसमिवा अव्यवाज्युह्वास्य अग्निर्देवानाम् जहनम् पूरलक्षकलिक्रदुः एव देवेऽभिरागमदे अग्निश्रिया मरुदा विश्वकृष्टयः आहमुग्रमव हीमहे वयम् ते स्मारिणा विजया वर्षण्यजः श्रीबुहानमेधक्रदवस्तुदानवः ेषुभकासो निविष्टा ऋतो नद्रान्वस्य अग्ने वित्ताभ्यविदयत्यजामः प्रभलेवाः प्रदक्षिणम्भुताम्भिः एवैरग्ने सजापरिगिणे मित्रावरुणार्यमा प्रातर्यावानाध्वनम् विश्वेडामदि निर्यज्ञियानाम् विश्वेडामधिशर्वानुषाणाम् अग्निर्देवानामवृणानः भवति विश्ववेधाः त्वय अग्नेष् पतिभ्यक्षमाणाः द्विश्ववधिगादः नक्ता चलक्रुतः कृष्णम् च वर्णमरणम् च सन्धुः त्वामग्नः नित्यासु आस्यम् त्वाम् जिक्वाश्रे ध्वरे देवा अविरदन्त्याहुदम् ते यज्ञस्य साधनम् अग्ने भवतानमृत्विषम् मनुष्पद्देवधीमहि प्रचेतसम् वीरम् दोषमर्त्यम् तिष्ठाः रेतसा युज्यमाना या हि नारम् नीतो नोक्षास्यन्धो अभिसृष्टो अस्मे इन्द्रस्वाह देवा देवदाय कस्य ृत्रहामवेदये इन्द्रम् वयम् महाधने इन्द्रमर्भे हवामहे विजम् वृत्रेषु वृद्रिणम् इन्द्रिभिः सुरम् असोराजनयम् अया हृयाः मानो अर्पयेदः श्वश्रियम् यदिन्द्रेष्व अग्रे विक्षुप्रदेशयत् हरे स्विन्द्रकम् सुहवगुम् हवामहे अगुम्भोपजगम् सुगुतन्दे व्यञ्जनम् अज्ञम् मित्रम् वरुणकम् सातये भगम् पृथिवे मरुदस्वस्तये पुनश्चन्द्रम् आदिशकम् समेरत् इन्द्रानस्ताकम् सूर्यमृजम् गातुमग्नम् अस्मे सद्भिषणुष्पमिन्द्र इन्द्रायगावासिनम् यत्से मुखः वरे विगज आस्ते आस्तेव त्रिंशेन भो योजयन्नः नभस्तयो गीतो विश्वमानाः अहरहर्भोयुज्योगुमानाः पूर्णा इन्द्रक्षुमतो भोजनस्य प्रसवे च सासहिम् इन्द्रम् देवादशो स्मात्सृष्टा पराञ्चायन् तानज्ञष्वमे नाप्नोद तानुक्षेण नाप्नोद तान् शोषिनाप्नोद तान्त्राणाप्नोद तान् सन्धिनाप्नोद सोऽगिमब्रवीद इमान् महीप्स्यति ता नज्ञभृतास्त्वमेन नाप्नोद स इन्द्रमब्रवीद इमान्महीप्सेदे तानिन्द्रः पञ्चदशेन स्तोमेननात्मोदय स विश्वान् देवानब्रवीद इमान्मयीप्सवेदे तान् विश्वे देवाः सप्तदशेन स्तो मे नवन्म सविष्णुमब्रवीद विपुंशेण स्वमेनाप्नोद वारवन्त्येनावारेत इदम् विष्णविचक्रम यदि दिव्यक्रमता यस्माप्रेमभ्यपुंशेरन् एतेन यदेत यदाप्नोत् तदप्तोयामस्याप्तोर्यामत्वम् एतेन वेदेवा जयित्वा निजित्वा कामयम् तदमाप्नुवन् यम् कामम् कामयते तमेतेनात्मजे याघ्रोऽयमग्नौजलनिर्प्रविष्टः वद्राजस्तिपा अयम् नमस्कारेण नमसादे जहोमि मा देवानाम् ऋषयाकर्मभागम् सा वेरिव प्रथवारिमित्रे वह्मानमस्मै वरिमाणमस्मै तथात्मभ्यगम् सविदः सर्वदाता विवेदिवासु बाहोरिपशः भूतो भूतेणुजलतिप्रविष्टः स भूतानामधि अस्य मृत्यौ जलतिराजसूयम् राजाराज्यमनमन्यतामिदम् एभिः शिल्पैप्रथा नामजृम्भज एभिर्द्यामभ्यभिगुंशत्त्वजामजिः एभिर्वाजम् विश्वलोपाकम् समज्ञेते तेनेममग्न इहवर्तसा सम्बन्धि येभिरादित्यस्तपतिप्रकेतुभिः एभिः सूर्यो दुषे चित्रभावः एर्वाजम् पुष्कले शिरभे एने मम वर्गसा दवन्ते आयम् फादुजवसापञ्चकृष्टेः इन्द्रियवज्येष्वापवदप्रजावान अस्मास्तु पुष्कलम् चित्रभाव आयम् वृणक्षे उपस्थम् यत्पे शिल्पम् कस्य बलो जनावले इन्द्रियावत्पुष्कलम् चित्रभाव यस्मिन् शौर्या तस्मिन् राजा नमजविश्रयमम् गौरजमिच्छव्यये याघवे याघ्रयजे विश्रयस्त्रदिशामहेः विशस्तासर्वा वाञ्छन्तो वाद्राष्ट्रमसि भजे या दिव्याः पयसादम्बभोवः या अन्तरिक्षवदवाच्छिपेयाः तासान्त्वासर्वाजा अभियञ्जामिवक्तसा अभित्वा वक्तसाधिजम् दिव्येन वयसा सह यथासारः प्रवर्धनः तथावेव धन्मद्रविशङ्गिरः रचेदमगम् रचेनान् वाजानागुम् सत्पदिम् पदिम् प्रथमस्ता पुरस्तादभिष्यन्तु गायत्रेण छन्दसा रुद्रास्ता लक्षन् तत्र यत्रेण छन्ददा आदित्यास्तापश्चादभिष्यन्तु जागरेण छन्ददा श्वे त्वादेवावत्तरतोभिषञ्चन्तानुष्ठुभेण छन्ददापरिष्टादभिषञ्चदुपान्तेन छन्ददा मरणन्ता मृगमुग्रङ्घयङ्करम् प्रवचमानम् मरुतामग्रे त्रिलः सूर्यवन्तम् मघवानम् विषासहिम् इन्द्रमक्षेणामहोतमगम्भुवेण प्रभासेनः आनोगव्योतिमुक्षदम् घृतेन आनवजनेश्ववैनयमाणा श्रुतं मे मित्रावरुणाहवेम इन्द्रस्य देवीर्यगदः बाहूपहरामि अभिप्रेः वीरयस्व उग्रश्चेत्तादपत्नः आदिष्ठवृत्त्रहन्तवः तुभ्यम् देवाधिब्रवन् अङ्कौण्यङ्काभिदोर्धय्यौ ध्वान्तम् वादाक्रमणसञ्चलन्तौ दूरे हेतिरिन्द्रियावारान् पतयप्पप्रयःपालयन्तौ नमस्तरिवेगः अव्यथाये त्वा स्वधायित्वा मानयेन्द्राभिरस्तु दश्वादिष्टा सह एवा ब्रह्मन्दवेदस्तो यष्टाधयद्वज्रास्तः आश्वेन्देवयवधयश्वः आदिष्ठभक्तान्नादिष्ठन् दम्परे पदप्तेन्द्रपदत्वमित्रावर्णौ यौश्चत्वापृथिवीरप्रदेतसा शुक्र बृहद्दक्षिणात्वा विभक्तो अनुस्पथाचिकिताकुम् अग्नेः अनुत्वादपितावेन इन्द्रम् विश्वा अवेदधन् समुद्रविषसङ्गिनः रचेदवगुम् रचीनाम् राजानाकम् सत्पदिम् पदिम् परिमासेशाः ज्यानाम् व्रञ्जन्तु गर्ध्रवः मे तिष्ठाः पिन्वमाना यः माङ्गोपदिमभिसंविशन्तो तन्मे न तन्माता पृथिवी तत्पिताद्योः तद्ग्रामानश्वमसुतोमयोभुवः तदस्मिनाशुरम्भगा इवम् अवयवेणमुदुत्तमम् एना व्याघ्रम्ब्वन्तिमहते दौर्भगाय समुद्रम् न सुखमन्तश्चिवांसम् प्रमजन्ते देविन पक्षन्तः उदसा वेदसौर्यः उदिमकम्बजः उदिदेवसौर्यः ग्ननाम अहम् वाचा विवाचनम् मे विवादस्तु सन्नधिः यन्तु न तया वर्षन्तु पर्जन्या आह सु भवन्त अन्नवदामो दनवदामाविक्षपदाम् एषाम् राजा भूयासम् ये कैचन प्रसमा ्रह्मणस्तपदोभिमानः देक्षावजने ह्युग्रः प्रकेशाः सुपदे काण्डिनो भवन्ति एकास्राक्षा वचने ह्युग्रः देहिलक्षिणाम् प्रदे अस्वायोः कथामुच्यस्वरुणस्य पादावपदसेन सोमस्य राज्ञा वर्णस्य विद्वान् तेन ब्रह्माणावपरेभ्यमिन्द्रा बृहस्पतिः सविधावर्चान् तेभ्य निधानम् बहुधाभ्यैक्षन् अन्तराद्यावाजमे अपस्तुवः गर्भस्तम्बे वैर्यगमे निधाय ओगुस्त्य नेमम् वक्त्रजाचगम् सृजाथा भवन्ते बाहुवोस् पितादृधातु सोमस्तानत्वेन श्रीषुरोमश्विनेतन्निधत्तम् ओगुस्त्य नेमम् वक्त्रजाचगम् सृजाथ यत् श्रीमन्तम् कङ्कतस्ते विलेख यद्वाहापरिमह्यस्ते श्रीषुरोमश्विनेतन्निधत्तम् ओगुस्ते नेमगंसकम् सृजाथो वीर्येन इन्द्रम् वैश्वा विश्वामरुतो नापाचायन् सोऽनपचाय्यमानवेदम् विघनमपश्यत् अमाहरत् एना यजदा तेनैवासान्तम् शङ्कस्तम् भव्यहन् यद्यहन् तद्विघनस्य विघ्नत्वम् विवात्मानम् तादृ्यगुंहते एरेण इदे युजैनमेवम् वेद एवम् राजानम् विशो नापचाययोः यो माः ब्राह्मणस्तमसापादः स्यात् एतेन यजेतेन द्विहत्य विषामाधिपत्यम् गच्छति तस्य द्वे द्वाद्वयष्टोऽत्रे भवतः एकंसे औद्भेद्यमेव तद् क्षत्रस्य उद्भेद्यम् यस्मेश्वा हरंदे विशो बलिगम् हरन्ति हरन्त्यस्मै विशो बलिम् यग एवम् वेद प्रभाहुग्ग्रेः क्षत्रान्यादेभो येषामिन्द्रः क्षत्राण्या दत्ता न वा इमानि क्षत्राण्यभूवन्निक्षत्राणान्नक्षत्रत्वम् आश्रयस्वाभ्यादुर्यस्य च इन्द्रियम् धत्ते यकेतेन युजते युजेनमेवम् वेद तद्यथा हैषक्ष्णोकप्लका उपाविहितौ स्याताः एवमेतौ युग्मन्तौ स्तोमौः अयक्षस्तोमेषु क्रियते आत्मनोपहत्ते अप आत्मानम् भ्रादुव्यगुम्भते न यजते यौजेन एवम् वेद तद्यथा हेषु जग्रामन्यः एवम् छन्दागुंसे ते श्वसा वा दिक्तो बृहदे ततो बृहदेवस्तुमते सतो बृहन् विधिरक्ताभिष्टपदे विधिरक्तम् मे क्षत्रम् विषा विषेवैनम् क्षत्रेण विनिधजते विधिरक्ताभिष्टपदे विधिरक्ता मे ग्राह्मणेश्वजातेः स्वजाते रेवेण विनिभजते विधिरक्ताभिस्तुपदेशक्तो वृणः पाप्मभिः विधिरक्ताभिरेवस्य पाप्मनोद